ॐ नमो भगवते वासुदेवाय श्रीमद्भागवत् महापुराणं सप्तमः स्कन्धः अथ प्रथमोऽध्यायः नारद्युधिष्ठिरसंवाद और्जय विजयकी कथां राजुवाच समं प्रियः सुहृद्ब्रह्मन् भूतानां भगवान् स्वयम् इन्द्रस्यार्थे कथं दयत्यान् अवधेद्वि स्महो यथा न यस्यार्थसुरगुणैः साक्षान्निःश्रेयसात्मनः नैवासुरेभ्यो विद्वेषोन्वेद्वेगश्च गुणस्य हि इति न सुमहाभागनारायणगुणान् प्रति संशयसुमहाजातस्तद्भुवां तद्भवाँश्चेतुमर्हति श्रीशुकुवाच साधुपृष्ठं महाराज हरेश्चरितम् अद्भुतं यद्भागवत् महात्म्यं भगवद्भक्तिवर्धनं गीयते परमं पुण्यं ऋषिर्भिर्नारदादिभिन्नत्वा कृष्णाय मुनिये कथ कथयिष्ये हरे कथां निर्गुणोऽपि यजो व्यक्तो भगवान् प्रकृते परः स्वमायागुणमाविश्य बाध्यबाधकृतां गतः सत्वं रजस्तम् इति प्रकृतेनात्मनो गुणाः न तेषां युगप्रद्राद्रन् ह्रासोल्लास एव वां जयकाले तु सत्वस्य देवर्षी न रज रजसोऽसुरान् तमसो यक्ष रक्षांसि तत्कालानुगुणो भजत् ज्योतिरादिरिवा भाति सङ्घात्तान्न विविच्यते विजन्त्यात्मानमात्मस्थं मथित्वा कवयोऽन्ततः यदा सुशिक्षो पुर आत्मनपरोसि ये स पृथक् स्वमायया सत्त्वं विचित्रा सुरेश्वर सयिष्यमाणसमैर्यत्यसौ कालं चरन्तं सृजति सयाश्रयं प्रधानपुम्भ्यां नरदेव सत्यग्रे या एष राजन्नपि कारयिषि ता स त्वं सुरानेकमिवेधयत्यतः तत्प्रत्यनेकान् सुरान् सुरप्रियो रजस्तमस्तान् प्रमिळो चुरुस्रवाः अत्रैवोदाहृतपूर्वम् इतिहाससुरर्षिणाम् प्रीत्या महाकृतौ राजन् पृच्छते जातसत्रवे दृष्ट्वा महाद्भूतं राजा राजसूये महाकृतौ वासुदेवे भगवति सायुज्यं चेदि भूर्भुजः तत्रासीनं सुरदृशिं राजा पाण्डुसुतः कृतौ पप्रक्षविस्मितमना मुनिनां शुल्मताम् इदं यधिष्ठिर अहो अत्यद्भुतं चेतन् दुर्लभै कान्तिनामपि वासुदेवे परे तत्त्वे प्राप्तिश्चैद्यस्य विद्विषः एतद्वेदि तुभिक्षामः सर्व एव वयं मुने भगवन्निन्दया द्विजये तमसि पातितः दमघोषसुतः पाप आरभ्य कुलभाषणात् सम्प्रत्यमर्षि गोविन्दे दन्तवक्त्रस्य दुर्मतिः सपतो रसं कृद्विष्णुं जद्रह्म परमव्ययं शेत्रो न जातो जिह्वायां नान्धं विविशतु स्तमः कथं तस्मिन् भगवते दुर्वग्राहधामने पश्यतां सर्वलोकानां दयमीयतुरञ्जसाम् एतद्भ्राम्यति मे बुद्धेन्दीपार्चिरिविवायुना बृह्येतद्भुतं तं तमं भगवान् तत्र कारणं श्रीशुकुवाच राज्ञस्तद्वच आकर्ण्य नारदो भगवान् श्री तुष्टप्राहतमाभास्य श्रमद्यास्तकथाः नारद उवाच निन्दवं सत्कारण्यवकारार्थं करेवरं प्रधानपरयो राजन् न विवेकेन कल्पितं हिंसा तदभिमानेन दण्डपारोषियोर्यथां वैषम्यमिहभूतानां ममाहमिति पार्थिव यन्निबद्धोऽभिमानेऽयं तद्वधात् प्राणिनां वध तथा न यस्य कैवल्याद् खिलात्मनः परस्य तमकर्तुर्हि हिंसाकेनाशकल्पते तस्माद्वैरानुबन्धेन निर्वैरेण भयेन वा स्नेहात् कामेन वा युज्यात् कथञ्चिन्नेच्छते पृथक् यथा वैरानुबन्धेन मर्त्यस्तन्मयतामियात् न तथा भक्तियोगेन इति मे निश्चिता कीटः पे संस्कृतारुद्धकुङ्ख्यायां तमनुस्मरन् सरं सरंभयं भययोगेन विन्दते तत्स्वरूपताम् एवं कृष्णे भगवते मायामुजेश्वरे वैरेण भूतपाप्मानं तमापुरनुचिन्तया कामाद्वेषाध्यया स्नेहाद्यया भक्तेश्वरे मनः आवेश्यन्तदुखं हित्वा बहवस्तद्गतिं गताः गोप्यकामाध्ययात्कंसो द्वेषाच्चैद्यादयो नृपाः सम्बन्धाद्विष्णस्नेहाद्योऽयं भक्त्या वयं विभोम् कतुमोऽपि नवीन स्यात् पञ्चानां पुरुषं प्रति तस्मात् केनाप्युपायेन मनः कृष्णे